नारदपुराणम् पूर्वार्धम् अध्यायम् एट्टि टु सनत्कुमार उवाच किम् त्वम् नारद जानासि पूर्वजन्मनि यत् त्वया प्राप्तं भगवतः साक्षाच्चुलिनो युगलात्मकम् कृष्णमन्त्ररहस्यं च स्मर विस्मृतिमागतम् सूत उवाच इत्युक्तो नारदो विप्राः कुमारेण तु धीमता ध्याने विवेदाशुचिरं चरितं पूर्वजन्मनः ततश्चिरं ध्यानपरो नारदो भगवत्प्रियः ज्ञात्वा सर्वं सुवृत्तान्तम् सुप्रसन्नानो ब्रवीद भगवन् सर्ववृत्तान्तपूर्वकल्पसमुद्भवः मम स्मृतिमनुप्राप्तो विना युगलम्भनं तच्छ्रुत्वा वदनं तस्य नारदस्य महात्मनः सनत्कुमारो भगवान् व्याजहार यथा सनत्कुमार उवाच शृणो विप्रवक्ष्यामि यस्मिन् जन्मनि शूलिनः प्राप्तं कृष्णरहस्यं वै सावधानो भवाधुना अस्मात् सारस्वतात् कल्पात् पूर्वस्मिन् पञ्चविंशके कल्पे त्वं काश्यपो जातो नारदो नाम नामदः तत्रैकदा त्वं कैलासं प्राप्तकृष्णस्य योगिनः सम्प्रष्टुं परमं तत्त्वं शिवं कैलासवासिनं त्वया महादेवो रहस्यं स्वप्रकाशितं कथयामासस्तत्त्वेन नित्यलीलानुगं हरेः तदस्तदन्तेदु पुनस्त्वया विज्ञापितो हरः नित्यां लीलां हरेर्द्रष्टुम् ततः प्राह सदाशिवः गोपीजनपदस्यान्ते वल्लभेदि पदम् तदः, तदः। चरणाचरणम् पश्चात् प्रपद्ये यदि वै मनुः मन्त्रस्यास्य ऋषि सुरभिश्चन्द एव च गायत्रीदेवताचार्य वल्लवीवल्लभो विभू प्रपन्नोऽस्मीति तद्भक्तौ विनियोग उदाहृदः नास्य सिद्धादिकं विप्र शोधनं न्यास्य कल्पनं केवलं चिन्तनं सद्यो नित्यलीलाप्रकाशकम् आभ्यन्तरस्य धर्मस्य साधनं वच्मि साम्प्रतं सङ्गृह्य मन्त्रं गुरुभक्तियुक्तो विचिन्त्य सर्वं मनः सा तदीहितं कृपां तदीयं निजधर्मसंस्थो विभाय विभावयन्नात्मनि तोषयेद्गुरुं सदा शिक्षेद वै धर्मां प्रपन्नानां भयापहान् ऐहिकामुष्मिकी चिन्ता विधुरान् सिद्धिदायकान् स्वेष्टदेवधिया नित्यं तोषयेद्वैष्णवांस्तथा भस्नादिभत्सनादिकमेदेषां न कदाचिद्विचिन्तयेत् पूर्वकर्मवशाद्भव्यमैहिकं भोग्यमेव आयुष्यकं तथा कृष्णस्वयमेव करिष्यति श्रीकृष्णं नित्यनीलास्तं चिन्तयेत् स्वधियानिशं श्रीमद्दर्चावतारेण कृष्णं परिचरेत् सदा अनन्यचिन्तनीयोऽसौ प्रपन्नैः शरणार्थिभिः स्थेयं देह गेहदा बुदासीन तया बुधैः गुरोरवज्ञां साधूनां निन्दां भेदं हरे हरौ वेदनिन्दां हरेर्नाम बलात्पापसमीहनम् अर्धवादं हरेर्नाम्नि पाषण्डं नाम सङ्ग्रहे अलसेनास्तिके चैव हरिनामोपदेशनं नाम विस्मरणं चापि नाम् ज्ञानादरमेव च सन्त्यजे दूरदो वत्स दोषानेदान् सुधार्जुनान् प्रपन्नोऽस्मीति सतदं चिन्तये धृतघं हरिं स एव पालनं नित्यं करिष्यति ममेति तवास्मि राधिकानाथ कर्मणा मनसा गिर कृष्णकां तेदि चैवास्मि युवामेव गतिर्मम दासा सखायापि दरप्रेयस्यश्च हरेरिह सर्वे नित्या मुनिश्रेष्ठचिन्तनीया महात्मभिः गमनागमने नित्यकरोदि वनगोष्ठयोः गोचारणं वयस्यैश्च विना सुरविखातनम् सखायोद्वादशाख्यादा हरे श्रीदामपूर्वकाः राधिकायाः सुशीलाद्याः सख्योद्वात्रिंशदीरिदाः आत्मानं चिन्तयेद्वत्सता स मध्ये मनोरमा ौपयौवनसम्पन्नां किशोरीं च स्वलङ्कृतां नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीं तत्सेवनसुखाह्लादभावेनादि सुनिर्वृतां ब्रह्मं मुहूर्तमारभ्य यावद् दर्दनिषा भवेद तावत् परिचरे तौ दो यथा कालानुसेवया सहस्रं च तयोर्नाम्नं पठेन्नित्यं समाहितः येदसाधनमुद्दिष्टं प्रपन्नानां मुनीश्वर नाख्येयं कस्य चित्तुभ्यं मया तत्त्वं प्रकाशितं सनत्कुमार उवाच ततस्त्वं नारद पुनः पृष्टवान् वै नाम्नां सहस्रं तच्चापि प्रोक्तवां तच्छृणुष्व मे ध्यात्वा वृन्दावने रम्ये यमुना तीरसङ्गतं कल्पवृक्षं समाश्रित्य तिष्ठन्तं राधिकायुधं पाठेन्नामसहस्रं तु युगलाख्यं महामुनि देवकीनन्दनशौरिर्वासुदेवो बलानुजः गदाग्रजकंसमोहकंसेवकमोहनः भिन्नर्गलभिन्नलोह पितृबाह्यः पिद्र पितृस्तुतः मातृस्तुदशिवध्येयो यमुनाजलभेदनः व्रजवासीव्रजानन्दी नंदबालो दयानिधिः लीलाबालपद्मनेत्रो पत्मनेत्रो ईश्वरः गो गोपि गोपिकानन्दनः कृष्णो गोपानन्दः सदाङ्गदिः भगप्राणहरो विष्णुर्भगमुक्तिप्रदोहरिः बलदोलाशयशयश्यामलः सर्वसुन्दरः पद्मनाभो हृषि लीलाविध्वंस्तशकडो वेदमन्त्राभिषेचिदः यस्यो दानं धनःकान्तो मुनिकोडिनिषेविदः नित्यं मधुवनावासि वैकुण्ठस्सम्भव क्रदुः रमा पदिर्यदुपदिर्मुरारिर्मधुसूदनः माधवो मानहारी च श्रीपदिर्भूधरः प्रभुः बृहद्वनमहा लीलो नन्दसूनुर्महासनः हा। तृणावर्तप्राणहारी यशोदाविस्मयप्रदः त्रैलोक्यवक्त्रः पद्माक्षपद्महस्तप्रियङ्करः ब्रह्मण्यो धर्मगोप्ता च भूपति श्रीधरस्वराड अजाध्यक्षशिवाध्यक्षो धर्माध्यक्षो महा महेश्वरः वेदान्तवेद्यो ब्रह्मस्थप्रजापतिरमोखधृक् गोपी करावलम्बी च गोपबालकसुप्रियः बालानुयीयी बलवान् श्रीधामप्रिय आत्मवान् गोपी गृहाङ्गणरधिर्भद्रसुश्लोकमङ्गलः नवनीदहरो बालो नवनीदप्रियाशनः बालवृन्दीमर्कवृन्दी चकिदाक्षपलायितः यशोदा तर्जितकम्बी मायारुदिदशोभनः दा दामोदरो प्रमेयात्मा दयालुर्भक्तवत्सलः सुबद्धो लूले नम्रशिरा गोपीकदर्धितः वृक्षभङ्गी शोकभङ्गी धनदात्मजमोक्षणः देवर्षिवचनस्वाही भक्तवात्सल्यसागरः व्रज कोलाहलकरो व्रजानद विवर्धनः गोपात्मा प्रेरकसाक्षी वृन्दा वननिवासकृद वत्सपालो वत्सपदिर्गोपदारकमण्डनः बालक्रीडो बालरदिर्बालकनकाङ्गदी पीदाम्बरो हेममाली मणिमुक्ता विभूषणः किङ्गिणी कटकीसूत्री नूपुरी मुद्रिकान्वितः वत्सासुरपदिध्वंसी बकासुरविनाशनः अखासुरविनाशी च विनेद्रीकृतबालकः आद्य आत्मप्रदसङ्घी यमुनातीरस्थो जनः गोपालमण्डलीमध्यसर्वगोपालभूषणः कृतहस्ततलग्रासो व्यञ्जनाश्रिदशाखिकः कृतबाहुशृङ्गयष्टिगुञ्जालङ्कृतकण्ठकः मयूरपि च मुकुटो वनमाला विभूषितः गैरीकाचित्रिधवपुर्नवमेकवभूस्मरः कोडिकन्दर्पलावण्यो लस्सन्मकरकुण्डलः आजानुबाहुर्भगवानिद्रारहितलोचनः कोडिसागरगाम्भीर्यकालकालः सदाशिवः विरञ्जिमोहनवपुर्गोपवत्सवपुर्धरः ब्रह्माण्डकोटिजनको ब्रह्ममोहविनाशकः ब्रह्मा, ब्रह्मा ब्रह्मेडिदस्वामी शक्रदर्पादिनाशनः गिरिपूजोपदेष्टा च धृतगोवर्धनाचलः पुरन्दरेडिधपूज्यकामधेनुप्रपूजितः सर्वतीर्थाभिषिक्रश्च गोविन्दो गोपरक्षकः कालियार्तिकरक्रूरो नागपत्नीडिदो विराट धेनु पारिप्रलम्बारिर्वृषासुरविमर्दनः मायासुरात्मजध्वंसी केशिखण्डविचारकः गोपगोप्ता धेनुगोप्ता दावाग्नि परिशोषकः गोपकन्या वस्त्रहारी गोपकन्या वरप्रदः यज्ञपत्न्यन्नभोजी च मुनिमानापहारकः जलेशमानमधनो नन्दगोपालजीवनः गन्धर्वाः शापमोक्ता च सङ्गचूडशिरोहरः वंशीवडीवेणुवादी गोपीचिन्तापहारकः सर्वगोप्ता समाह्वान सर्वगोपीमनोरथः व्यङ्गधर्मप्रवक्ता च गोपीमण्डलमोहनः रासक्रीडारसस्वादीरसिको राधिकाधवः किशोरिप्राणनाथश्च वृषभानसुधाप्रियः सर्वगोपीजनानन्दी गोपीजनविमोहनः गोपिका गीतजदिदो गोपीनर्तनलालसः गोपी, गोपी, गोपी, गोपी स्कन्धाश्रितकरो गोपी गोपीका गोपिकाचुम्बनप्रियः गोपिकामार्जितमुको गोपीव्यञ्जनवीजितः गोपिका केशसंस्कारी गोपी संस्तरः गोपिकाकृदयालम्बी गोपीवहनतत्परः गोपिका मदहारी च गोपिका परमार्जितः गोपिका संस्मृतप्रियः गोपिका वन्दितपदो गोपिका वशवर्तनः राधापराजितश्रीमान् निकुञ्जे सुविहारवान् कुञ्जप्रियकुञ्जवासी वृन्दावनविकासनः यमुनाजलसिप्राङ्गो यमुना सौख्यदायकः शशि संस्तम्भनशूरकामिकामविमोहनः कामाध्या कामनाथश्च काममानसभेदनः कामदकामरूपश्च कामिनी कामसञ्चयः नित्यक्रीडो महालीलः सर्व सर्वगतस्तथा परमात्मा पराधीश सर्वकारणकारणं बृहीद नारदवजा ह्यक्रूरपरिचिन्तितः अक्रूरवन्दिदपदो गोपिकातोषकारकः अक्रूरवाक्यसङ्ग्राही मधुरावासकारणः अक्रूरतापशमनो रचकायुः प्रणाशनः मधुरानन्ददायी च कंसवस्त्रविलुण्ठनः कं सवस्त्रपरिधानो गोपवस्त्रप्रदायकः सुदामगृहगामीज सुदामपरिपूजितः तन्दुवाय कसंप्रीतकुब्जाचन्दनलेपनः कुब्जारूपप्रदो विज्ञो मुकुन्दो विष्टरश्रवाः सर्वज्ञो मधुरालोकी सर्वलोकाभिनन्दनः कृपाकडाक्षदर्शीज दैत्यारिर्देवपालकः सर्वदुःखप्रशमनो धनुभङ्गीमहोत्सवः कुवलयापीडहन्दा दन्तस्कन्धबलाग्रणीः कल्परूपधरो धीरो दिव्यवस्त्रानुलेपनः मल्लरूपो महाकालकामरूपी बलान्वितः कं सत्रासगरो भीमो मुष्टिकान्तश्च कंसः चाणोरक्नोभयकरशलारिस्थोशलां तकः वैकुण्डवासी कंसारिः सर्वदुष्टनिषूदनः देवदुन्दुभिनिर्घोषीपिदृशोकनिवारणः यादवेंद्रस सदां नाथो यादवारिप्रमर्दनः शौरिशोकविनाशी च देवगीतापनाशनः उग्रसेनपरित्रादा उग्रसेनाभिपूजितः उग्रसेनाभिषेकी च उग्रसेनदयापरः सर्वसात्त्वदसाक्षी च यदूनामभिनन्दनः सर्वमाधुरसंसेव्यकरुणो भक्तबान्धवः सर्वगोपालधनदो गोपीगोपाललालसः शौरिदत्तोपवीदी च उग्रसेनदयाकरफ गुरुभक्तो ब्रह्मचारी निगमाध्ययनेरतः सङ्कर्षणसहाध्यायी सुदाम सुहृदेव विद्यानिधिकलाकोशो मृदपुत्रदस्तथा चक्रीपाञ्जनी चैव सर्वनारकिमोचनः यमार्चिदपरो देवो नामोच्चार वसोच्युदः कुब्जा विलासीसुभगो दीनबन्धुरनूपमः अक्रूर अक्रूरगृहगोप्ता च प्रतिज्ञापालकः शुभः जरासन्धजयी विद्वान् यवनान्दो द्विजाश्रयः मुजुगुन्दप्रियकरो जरासन्धपलायुधः द्वारकाजनगोगूढो ब्रह्मण्यसत्यसङ्करः लीलाधरप्रियकरो विश्वकर्मा यशप्रदः रुक्म रुक्मिणीप्रियसन्देशो रुक्मशोकविवर्धनः चैद्यशोकालयश्रेष्ठो रुक्मि वैरूप्यकरणो, रुक्मिणी वचनेरधः बलभद्रवचोग्राही मुक्तरुक्मि जनार्दनः रुक्मिणी प्राणनाथश्च सत्यभामापदि भक्तपक्षीभक्तिवश्यो ह्यक्रूरमणिदायकः शदधन्वाप्राणहारी वृक्षराजसुदाप्रियः सत्राजित्तनया कान्दो मित्रविन्तापहारकः सत्यापतिर्लक्ष्मणाजित्पूज्यो भद्राप्रियङ्करः नरकासुरकादीं च लीलाकन्या हरो जयी मुराजिर्मदनेशोऽपि धरित्री दुःखनाशनः वैनतेयी स्वर्गगामी अदित्यकुन्दलप्रदः इन्द्रार्चितो रमाकान्तो वज्रिभार्या पारिजातापहारी च शक्रमानापहारकः प्रद्युम्नजनकः साम्प्रतादो बहु सुतो विधुः गर्गाचार्यसत्यगतिर्धर्मा धारो धराधरः द्वारकामण्डनश्लोक्यः सुश्लोको निगमालयः पौण्ड्रकप्राणहारी च काशीराज शिरोहरः अवैष्णवविप्रदाही सुदक्षिणभया बहः जरासन्धविदारीं च धर्मनन्दनयज्ञकृतशिशुपाल शिरच्छेदी गन्धवक्त्रविनाशनः विदूरथां सकश्रीश्रीदोद्विविदनाशनः रुक्मिणीमानहारी च रुक्मिणी मानवर्धनः देवर्षि शापहर्ता च द्रौपदीवाक्यपालकः दुर्वासो भयहादिव पार्थ पार्थदूतः पार्थमन्त्री पार्थदुःखौ धनाशनः पार्थमानापहारी च पार्थजीवनदायकः पाञ्चालीवस्त्रदाता च विश्वपालकपालकः श्वेताश्वसारधि सत्य सत्यसाधो साध्यो भयापहः सत्यसन्धः सत्यरदि सत्यप्रिय उदारधीः महासेनजयी चैव शिवसैन्यविनाशनः बाणासुरभुजचेतबाणबाहुवरप्रदः तार्क्ष्यमानापहारी च तार्क्ष्यतेजो विवर्धनः रामस्वरूपधारी च सत्यभामामुदावहः ब्रजलीला व्रजलीलाप्रदर्शकः स्वप्रतिज्ञा परिध्वंसी भीष्माज्ञा परिपालकः वीरायुधहरकालकालिके शोमहाबलः वर्वरीष शिरोहारी वर्वरीष शिरःप्रतः धर्मपुत्रजयी सूर्यदुर्योधनमदान्तकः गोपिकाप्रीतिनिर्बन्धनित्यक्रीडो ब्रजेश्वरः राधाकुण्डरतिर्धन्यः सदान्तोलसमाश्रितः सदा मधुवनानन्दी सदा वृन्दावनप्रियः अशोकवनसन्नद्धः सदा तिलकसङ्गदः सदा गोवर्धनरदे सदा गोकुलवल्लभः नित्यं वंशी वडस्थितः नन्दग्रामकृतावासो वृषभानुग्रहप्रियः गृहीतकामिनीरूपो नित्यं राशिविलासकृतवल्लवी जनसङ्गोप्ता वल्लवी जनवल्लभः देवशर्मकृपाकर्ता कल्पपादपसंस्थितः शिलानुगन्धनिलयपादचारी कनचविः अद सी लक्ष्मी कृपाकरः लक्ष्मीकृपाकरः त्रिपुराजिप्रियकरो ह्युग्रधन्वा पराजितः षड् सकर्ताच च निगुम्भप्राणहारकः वज्रनाभपुरध्वंसी पौण्ड्रकप्राणहारकः बहुलाश्वप्रीतिकर्ता द्विजवर्यप्रियङ्करः शिवसङ्कटहारी च वृकासुरविनाशनः भृगुः सत्कारी च शिवसात्त्विकदाप्रदः गोकर्णपूचकः साम्बपुष्ठविध्वंसकारणः वेदस्तुतो वेदवेत्ता यदुवंशविवर्धनः यदुवंशविनाशी च उद्धवोद्धारकारकः राधा च राधिका चैव आनन्दा वृषभानुजा वृन्दावनेश्वरी पुण्या कृष्णमानसहारिणी प्रगल्भा चतुरपामा कामिनी हरिमोहिनी ललिता मधुरा मध्वी किशोरी कनकप्रभा जिदचन्द्रा जिदमृगा जिदसिंहा जिदद्वीपा जिदरम्भा जिदपिका गोविन्दहृदयोद्भवा जिदबिम्बाजिदशुका जिदपद्माकुमारिका श्रीकृष्णा कर्षणा देवी नित्यं युक्मस्वरूपिणी नित्यं विहारिणी कान्ता रसिका कृष्णवल्लभा आमोदिनी मोदवती नन्दनन्दनभूषिता दिव्याम्बरा दिव्यहारा मुक्ता मणिविभूषिता कुञ्जप्रिया कुञ्जवासा, कुञ्जनायकनायिका चारुरूपा चारुवक्त्रा चारु, चारु, चारु हेमाङ्गदा शुभा श्रीकृष्णवेणुसङ्गीता मुरली हरिणी शिवा भद्रा भगवदी, शान्ता कुमुदा सुन्दरी प्रिया कृष्णरदि श्रीकृष्णसहचारिणि वंशीवडप्रियस्थाना युक्मा युग्मस्वरूपिणि भाण्डीरवासिनीशुभ्रा गोपीनाथप्रिया सखी श्रुति निःश्वसिदा दिव्या गोविन्दरसदायिनी श्रीकृष्णप्रार्थ धनीशना महानन्दप्रदायिनी वैकुण्ठजनसंसेव्या कोडिलक्ष्मी सुखावः कोटिकन्दर्पलावण्या रदि कोडिरदिप्रदा भक्तिग्राह्या भक्तिरूपा लावण्यसरसी ब्रह्मरुद्रादि ब्रह्मरुद्रादिसम्राध्या नित्यं कौदूहलान्विता नित्यलीला नित्यकामा नित्यशृङ्गारभूषिता नित्यवृन्दावनरसा नन्दनन्दनसंयुता गोपगीकामण्डलीयुक्ता नित्यं गोपालसङ्गता गो रसक्षेपणिचूरा सानन्दानन्ददायिनी महालीलाप्रकृष्टा जनागरी नकचारिणी नित्यमकुर्निदा कूर्णा कस्तूरी तिलकान्विता पद्माश्यामा मृगाक्षी च सिद्धिरूपा कोडि कोडिचन्द्रानना गौरी कोडि सुस्वरा, निलया, कोडिकोकिलसुस्वरा शीलसौन्दर्यनिलया नन्दनन्दनलालिता अशोकवनसंवासा धाण्डीरवनसङ्गदा कल्पद्रुमलता विष्ठा कृष्णा विश्वा हरिप्रिया अजागम्य भवागम्या अजागम्या भवागम्या कृतालया गोवर्धनकृतालया यमुनातीरनिलया शश्वगोविन्दजल्पिनी शश्वन्मानवदी स्निग्धा श्रीकृष्णपरिवन्दिता कृष्णस्तुता कृष्णवृता श्रीकृष्णहृदयालया देवद्रुमफला सेव्या वृन्दावनरसालया कोटितीर्थमयी सत्या कोटितीर्थफलप्रदा कोडियोगसुदुष्प्राप्या कोडियज्ञदुराश्रया मनसा शशिलेखाच्च श्रीकोटिसुभगानखा कोटिमुक्ता सुखा सौम्या लक्ष्मी कोटिविलासिनी त्रिलोत्तमा त्रिकालस्था त्रिकालज्ञाप्यधीश्वरी त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी दुर्गाराध्या रमाराध्या विश्वराध्या चिदात्मिका देवाराध्या पराराध्या ब्रह्माराध्या परात्मिका शिवाराध्या प्रेमसाध्या भक्ताराध्या रसात्मिका कृष्णप्राणार्पिणी भामा शुद्धप्रेमविलासिनी कृष्णाराज्ञा भक्तिसाध्या भक्तवृन्दनिषेविता विश्वधारा कृपाधारा जीवधारादि जीवधारादिनायका शुद्धप्रेममयी लज्जा नित्यसिद्धा शिरोमणिः दिव्यरूपा दिव्यभोगा दिव्यवेषा मुदान्विता दिव्याङ्गना बृन्दसारा नित्यनूतनयौवना परब्रह्मा वृदाध्येया महारूपा महोज्वला कोटिसूर्यप्रभा कोटिचन्द्र बिम्बाधिकच्छविः कोमलामृद वागाद्या वेदाद्या वेद दुर्लभा कृष्णा सकृदा कृष्णभक्ता चन्द्रावलिनिषेविता कला षोडश सम्पूर्णा कृष्ण देहार्ध धारिणी कृष्णबुद्धिकृष्णसारा कृष्णरूपविहारिणी कृष्णकान्तः कृष्णधना कृष्णमोहनकारिणी कृष्णदृष्टिकृष्णगोत्री कृष्णदेवी कुलोद्वहा सर्वभूतस्थिदावात्मा सर्वलोकनमस्कृता कृष्णधात्री प्रेमधात्री स्वर्णधात्री मनोरमा नगधात्री यशोधात्री महादेवी शुभङ्गरी श्रीशेषदेवजननी अवतारगणप्रसूः पलाङ्कारविन्दाम्का प्रसादाम्का द्वितीयका रताङ्गा कुञ्जराम्काञ्चरताङ्गा कुञ्जराका कुञ्जराम् का च कुन्दलाङ्कपदस्थिता चत्राग विद्योदङ्गा च पुष्पमालाङ्कितापि च दण्डां का मुकुटां का च पूर्णचन्द्रा चुकाङ्किता कृष्णत्राकारपाकाचवृन्दा कुञ्जविहारिणि कृष्णप्रबोधनकरी कृष्णशेषान्नभोजिनि पद्मकेसरमध्यस्था सङ्गीता गमवेदिनी कोडिकल्पान्तभ्रूभङ्ग अप्राप्तप्रलयाच्युदा सर्वसत्त्वनिधि पद्मशङ्खादिनिधिसेविता अणिमादिगुणैश्वर्या देववृन्दविमोहिनी स स्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः कृष्णाभिसारः साङ्केता मालिनी नित्यपण्डिता गोपीसिन्धु गोप ह्वां गोपमण्डपशोभिनी श्रीकृष्णप्रीदिधा भीता लिंगनरता विरहाक्षमा प्रत्यङ्गपुलकाञ्चिता श्रीकृष्णालिङ्गनरता गोविन्दविरहामा लालसा बीजत्रयमयी मूर्तिकृष्णानुग्रहवाञ्छिता विमलादिनिषेव्या च लडिताद्यार्चिता सती पाद्मवृन्दस्थिता कृष् त्रिपुरा परिसेविता वृन्दावत्यर्चिता श्रद्धा दुर्ज्ञेया भक्तवल्लभा दुर्लभा सान्द्रसौख्यात्मा श्रेयो हे दुःसुभोगदा सारङ्गा शारदा बोधा सद्वृन्दावनचारिणी ब्रह्मानन्दाचिदानन्दा ध्यानान्दार्धमातृका गन्धर्वासुरतज्ञा च गोविन्दप्राणसङ्गमा कृष्णाङ्गभूषण रत्नभूषणास्वर्णभूषिता श्रीकृष्णकृतय वासमुक्ता कनकनायिका सद्रत्नकङ्कणयुता श्रीमन्यलगिरिता स्वर्णनूपुरसम्पन्ना स्वर्णकिङ्किणी मण्डिदा अशेषराशकुतुका रम्भोरूस्तनुमध्यमा पराकृति परानन्दा परा परस्वर्गविहारिणी प्रसून कबरीचित्रा महासिन्दूरसुन्दरी कैशोरवयसा बाला प्रमदा कुलशेखरा कृष्णाधरसुधा स्वादा श्यामप्रेम विनोदिनी शिखिपि चल सच्चूडास्वर्णचम्पकभूषिता कस्तूरी मण्डिता चापराजिता हेम हारान्विता पुष्पा हाराढ्या रसवत्यपि माधुर्य मधुरा पद्मा पद्महस्ता सुविश्रिता भ्रू भङ्गाभङ्ग कोदण्ड कडाक्षशसन्धिनि शेषदेवाशिरस्था च नित्यस्थलविहारिणि कारुण्यजलमध्यस्था नित्यमत्ताधिरोहिणी अष्टभाषवदि चाष्टनायिकालक्षणान्विता सुनू सुनूतिज्ञा श्रुतिज्ञा च सर्वज्ञा दुःखहारिणी रजोगुणेश्वरी चैव जरच्चन्द्रनिभानना हेदहि कुसुमाभासा सदा सिन्धुवनस्थिता हेमपुष्पाधिककरा पञ्चशकृमयी हिता स्तनकुम्भी नराढ्या च क्षीणा पुण्या यशस्विनी वैराजसूयजननी भुवनमोहिनी महाशोभा महामाया महाकांदिर महाकान्तिर्महास्मृतिः महामोहा महाविद्या महाकीर्तिं महारथिः महाधैर्य महावीर्य महाशक्तिर्महाधिः महागौरी महा महा महा विलासिनी समया भक्ति भक्तिदाशोका वात्सल्यरसदायिनी सुहृद्भक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणि भावभक्तिप्रदा शुद्धप्रेम भक्तिविधायिनी गोपरामाभिरामा च क्रीडा रामा परेश्वरी नित्यरामा चात्मरामा कृष्णरामा रमेश्वरी एका नैक जगद्व्याप्ता विश्वलीला प्रकाशिनी सरस्वतीशा दुर्गेश जगदीश जगद्विधिः विष्णुवंशनिवासा च विष्णुवंश समुद्भवा विष्णुवंशस्तुदा कर्त्री सदा आरामस्तावनस्था सूर्यपुत्र्यवगाहिनी प्रीदिस्ता नित्ययन्त्रास्ता गोलोकस्ता विभूतिदा स्वानुभूतिस्थिता व्यक्ता सर्वलोकनिवासिनी अमृता ह्यद्भुदा श्रीमान्नारायण समीडिता अक्षरापिजकूडस्ता च महापुरुष सम्भवा औदार्य भावसाध्या च स्थूलसूक्ष्मादिरूपिणी शिरीश पुष्पमृदुला गाङ्गेयमुकुरप्रभा नीलोत्पलजिदाक्षी च सद्रत्नकवरान्विता प्रेमपर्यकनिलय तेजो मण्डलमध्यगा कृष्णाङ्गगोपनाभेदा लीलावरणदायिका सुधान्धुसमुल्लासामृदास्यन्दविधायिनी कृष्णचित्ता रसचित्ता प्रेमचित्ता हरिप्रिया अचिन्तनगुणग्रामा कृष्णलीला मलापहा राससिन्धुशशाङ्का च रासमण्डलमण्डिनी नदव्रता सिंहरी च सुमीर्तिः सुखं दिदा गोपीचूडामणिर्गोपीगणेड्या विरजाधिका गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपी का गोपधाम सुधामाम्बा गोपाली गोपमोहिनी गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका वीणादिघोषनिरधा रासोत्सवविकासिनी कृष्णचेष्टा परिज्ञादा कोडिकन्दर्पमोहिनी कृष्ण गुणनागाढ्या देवसुन्दरि मोहिनी कृष्णचन्द्रमनोज्ञा च कृष्णदेव सहोदरी कृष्णाभिलाषिणी कृष्णप्रेमानुग्रहवाञ्छिता क्षेमा च मधुरालापा भ्रुवो माया सुभद्रिका प्रकृति परमानन्दा नीपद्रुमलतास्पिता कृपा बिम्बोष्टी रम्भाचारुनिदम्बिनी स्मेरकेलिनिधाना च गण्डताडङ्गमण्डिदा हेमाद्रिकान्तिरुचिरा प्रेमाद्या मदमन्धरा कृष्णचिन्ता प्रेमचिन्ता रविचिन्ता च कृष्णदा रासचिन्दा भावचिन्ता शुद्धा शुद्धचन्ता महारसा दृष्टि दृष्टि दृष्टित्रुडियुगा दृष्टिपक्ष्मिविनिन्दिनी कंदर्पजननी मुख्या वैकुंठ वैकुण्ठगदिदायिनी रासभावा प्रिया सृष्टा प्रेष्टा प्रथमनायिका शुद्धा देहिनी च श्रीरामा रसमञ्जरी सुप्रभावाशुभाचार स्वर्णदीनर्मदाम्बिका गोमती चन्द्रभागेढ्यासरयोस्ताम्रपर्णिसुः निष्कलङ्कचरित्रा जनुर्गुणा च निरञ्जना एतन्नाम सहस्रं दुर्युग्मरूपस्य नारद पठनीयं प्रयत्नेन वृन्दावनरसवहे महापापप्रशमनं वं ध्यात्वा विनिवर्तकं दारिद्र्यशमनं रोगनाशनं कामदं महद पापापकं वैरिहरं राधामाधव भक्रीदम् नमस्तस्मै भगवदे भगवते कृष्णाया कुण्ठमेधसे राधा सङ्गसुधासिन्धौ नमो नित्यविहारिणी राधादेवी जगत्कर्त्री जगत्पालनतग्गपत्परा जगल्लयविधात्रीज सर्वेशी सर्वसूजिका तस्या नाम सहस्रं वै मया प्रोक्तम् मुनीश्वर भक्तिमुक्तिप्रदम् दिव्यम् किम् भूय श्रोतुमिच्छसि इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधाकृष्णसहस्रनामकथनं नाम द्वि अशीति तमोऽध्यायः ओम्